तृतीयाष्टकप्रारम्भः ओ अग्निर्नत्वाकृत्तिकाः नक्षत्रम् देवमिन्द्रियम् इदमासाम् विचक्षणम् अविदासञ्जुहोदना यस्य भान्तरश्मयो यस्य केतवः यस्ये माविश्वाभुवनानि सर्वाः सकृत्तिकाभिरविदम्बदानः अग्निर्नादेवस्वधातो प्रजापदे लोहिणीवेदपत्नीः विश्वरूपामृहति चक्रभानुः यज्ञस्य पुरस्तानात् विश्वारूपाणि प्रतिमोदमाना प्रजापदिगम् भविना बद्धयन्ति प्रजादेवानामुपयातु यज्ञम् सोमो राजामृगशीर्षे नागन् शिवम् नक्षत्रम् प्रेमस्य धाम आप्यायमान वभुधा जनेषु वेदप्रजायजमाने तथा तु नक्षत्रम् मृगशीर्षमस्य प्रेदमम् विजाना तस्मै चेतो हविदाभिधेम सन्नदेश जुपदेशम् चतुष्पदे आद्रयार्द्रप्रथमानयेतिवानाम् प्रतिलग्निजानाम् नक्षत्रमस्य हविदाविधेम मानः प्रजागम्रेषतवीरान् हेते लुद्ध परिणामिनर्तो आर्द्रानक्षत्रो नः पुनरेताम् पुनन्ना देवा भेन्दु सर्वे पुनः पुनर्वाह विजायजामः विजितरनर्वा विश्वस्य भद्रे जगतः प्रतिष्ठा पुनर्वसो विवर्धयन्ति प्रियम् देवानामप्येतपाथः बृहस्पतिप्रथमम् जायमानः पिष्यन्नक्षत्रमपिजम्बभूव श्रेष्ठो देवानाम् पुदनाल्यश्नः यो नभयम् नष्यः पुरस्ताविदमध्यतो नः बृहस्पतिर्नः परिपादपश्चात् बाधेताम् वेशोभयम् कृणुताम् सुवीर्यस्य पदयस्याम इदम् सर्पेभ्यः विरक्तिष्टम् आश्रेटायम् जितः येन पृथिवे क्षियन्ते येन सर्पासोऽहमागमिष्ठाः यस्यासर्पाः हे जिवन्ते वे मुणसञ्चरन्ति येषामाश्रेणालयम् जिकामम् एभ्यः सर्पेभ्य मुदुगम् जहोमिदा वितरा ये अनायवदस्तु कृदस्तु कृत्याः नक्षत्रे वागमिष्ठाः तथाभियज्ञम् प्रेतम् झिषन्ताम् येनाग्निदग्धा येन अग्निदग्धाः हे मल्लाकम् पितरः क्षियन्ते यागश्च विद्मयागुम्प्रिद् यज्ञकम् सुगतम् झषन्ताम् तवाम् पदःफुनेनापथित्ताम् देवा जीवम् दर्भसंविषेम हेनेमाविश्वाभुवनानि सञ्जिता यश्च देवान् दय्यन्ति चेदः हर्यमाराजाचरस्तु विष्मान् फल्गुनेनाभवन रवेते श्रेष्ठो देवानाहम् भगवो भगवति रत्त्वा फल्गुणेस्तस्य वित्तान् अस्मभ्यम् क्षत्रमजनकम् सुवेर्यम्पसन्नुदेह भगवः दादाः हेतृदा भगवदेवे फर्गुणेराविवेश भगवस्येत्रम् प्रसभङ्गमेमदेवैः समादम् मदेम आयाजदेवस्य पितोपयाद शिरण् सुमतारः सुभगम् विनापदम् प्रेक्षन्तम् परिम् पुण्यमच्च हस्तप्रेक्षत्वमदम् वधीयः दक्षिणेन ना प्रतिर्भेमयेनताविदेय नास्ताय कृत्वा क्षत्रमभ्येतिचित्रा सुभगंसङ्गम् रोचमानात्यागश्च रूपाणि भुवनान् विश्वानष्टा तन्नक्षत्रम् भोहितास्तमज्ञम् यज्ञम् वायुर्नक्षत्रमभ्येतिष्ठाणः ्वाः अपद्वेदमराजेः तन्नो वायुस्तुनादो तन्नक्षत्रम् भोजितास्तु मह्यम् तन्नो देवासोऽनुजानम् तु कामम् विश्वाः दूरमस्त्वक्षत्र वायुम् तु भीताः तवखे तन्नो देवानुपदन्ते नक्षत्राणामधिपत्ने विशाखे शेष्टाविन्द्राग्नेभुवनस्य लोपौषोर्णापश्चादपोर्णा पुरस्ताभ्यदर्पौर्णमाधेराय तस्याम् देवाभिसम्वसन्तः उत्तमेणाकैगमादयन्ताम् पृच्छेदवत्याः ओर्णमाशुदगा शोभमाना यज्ञं देवं दे अनुराधा आप्यायन्ति विश्वाः वृन्दः यज्ञम् मास्तु अनोराधा नीमेवनक्षप्रमुदका प्रहस्तात् अनोराधान्मित्रयानेयेः इन्द्राध्येष्ठामनक्षत्रमेते यस्मिन् वृत्तम् वृत्ततोः पुरन्दराय प्रभाय विष्णवेः अखाढाय सहमानाय मेघवेः इन्द्राय ज्येष्ठामधुमद्दुहाना प्रलोङ्कणादयमानाय लोकम् ओलम् प्रदाम् भीनपतेयतिपराय भिर्नक्षत्रम् वदिवः समर्दम् अहर्भो या यजमानाय मह्यम् हान्मार्जविदधातो भवनम् नक्षत्रमिदयद्वदन्ते पराजेयम् श्रमृदाये श्रमस्तमह्यम् या दिव्याः मत्पयतादम्बभोगः या अन्तरिक्ष उदपार्थिपेर्याः शाष्ट गोप्यायाश्च नाद्याः समुद्रयाः राष्ट्रवेदन्ते कृतप्रार्थेयाः पक्षयन्ते नावश्रग्स्वनाभवन्त कर्णाविश्वेपसन्न देवाः अभिनयन्ते यज्ञम् कर्णक्षत्रम् प्रसताम् मरुद्भ्यः निर्विष्टयजमानाय कम्पदाम् सुभ्याः कन्याय मदय सुभेदसः कर्मगतस्वगतावर्यावदेः विश्वान् देवानधयन्तेः यज्ञम् यस्मिन् ब्रह्माभ्यजयत्सर्वमेतत् सर्वम् तन्न नक्षत्रमभजयद्विचित्या श्रीयम् तथा त्वगणीयमानम् भो लोकोद्ब्रह्मणा सञ्चते मौ तन्नो नक्षत्रमभयद्विजष्टा अस्मिन् भयम् वदनाः सन्दयेम नुजान्तश्रवणानुपदस्य गोपा पुण्यामस्यापुतनादिपादम् दिवम् पृथिवीमन्तम् तत् श्रवणे श्रव यच्छमानः पुण्यजमानायम् भजे अष्टौ देवावसवः सौम्यासः स्ते यज्ञम् नक्षिणतोभयन् दुःश्रविष्ठाः पुण्यर्नक्षत्रमपि संविजामरादकन्नागन्ने क्षत्रस्य राजा वरुणाधिराजः नक्षत्राणागम् दीर्घमायः त्तः यज्ञन्न राजा वरुण उपयासो विश्वेवाः नक्षत्रीकपादगात् पुरस्तानि विश्वाभूतानि प्रतिबोदमानः तस्य देवात् पदमयन्ति सर्वे गोपाः विभ्राजमानस्य मिधाणमुग्रहः आन्दलक्षमरफलगन्ध्याम् देवमनमेकपाजम् प्रोष्टपदासो हलयन्ति सर्वे अयिर्बुद्ध्यः प्रथमानये देवानामुतमानुषाणाम् सम्ब्राह्ना स्वमपास्व्यासः प्रोष्ठपदासो अभिलक्षन्ति सर्वे तत्त्वारनेकमभिकर्म देवाः प्रोष्ठपदासिविर्यानुवदन्ति हे बुद्ध्यम् वरिणत्यज्ञवन्तः यम् रक्षन्त्य नूषा एव अन्नकम् रक्षन्तलोकम् वाजगम् सनुतायजमानायज्ञम् चोपजाता शुभङ्गमिष्टौ त्रियमे विरस्पेयेः नक्षत्रकम् भविडायन्तौद्धासम्पृक्तौ विजरासमक्तौ यौ देवानाहौ विश्वस्य दोदामुदस्य गोपौ तौ नक्षत्रम् त्रिजुरानोपयाता नमाष्टिभ्याम्भ्याः भरणेभरन्मो राजा भगवान् विजष्टा लोकस्य राजा महाने यस्मिन्नक्षत्रेभ्यन्तर्भन्तो नियत्ते देवादित्यांशुमाः प्यायन्ते एव वियन्ते समानन्दन्तम् परिदासनादे वे नक्षत्रेऽपमागमेतम् अयम् देवे ब्रह्मणा संविदानाः श्रत्नातो देववी चिन्तदानाः होरात्रे अविवा वर्धयन्तः अविवात्मानमधिमुक्त्यागमेम प्रत्ये विक्षन्ते च हितायः अपोमेवणदयचक्षुषा तमोज्योणले सूर्यः क्षत्रमथ्यमस्यहे तन्नानक्षत्रमथिमदे भानुमत्ते च उच्चरदे उभयज्ञमिहागमदे नक्षत्राय देवाय इन्द्रायेन्द्रगुम्भवामहे धनस्वत्सयम् वेदवत्तमम् चित्रम् अभिगर्मोषमातरम् इयम् विष्णपरद्यष्णः अर्गम् मोर्धाभवः अर्णोऽर्मितमधे त्वम् अर्ग्यस्पृष्टम् अर्ग्यर्वागामयता अन्नादो देवानागस्यामिदे नादमष्टागवानन्निरवदे नादो देवानामभवद् अग्रर्वे देवानामन्नादः भवते विषायेन देवम् वेद श्रोतृजहोजे अग्नये स्वाहा कृत्तिकाद्य स्वाहा अम्बाये स्वाहा दुलाय स्वाहा स्वाहा प्रयन्ध्ये स्वाहायन्धे स्वाहायन्धे स्वाहा सुपुणेकाये स्वाहा प्रजापय प्रजापदा तास्मा सृष्टा पराचिरायन् आसाकम् रोहिणीमभ्यध्यायते स्वकामयत उपमावर्तयत समे निजागच्छे येति स एनम् प्रजापदये लोहिण्ये चरन्निरवदेशार्तत समे निजागच्छत उपहवादेन प्रियमावर्तते सम्प्रियेण गच्छतेन दे। दे दे दे। देवम् वेद सोऽत्र प्रजापदये स्वाहा रोहिण्यै स्वाहा रोचमाना ये स्वाहा प्रजाभ्यस्वाहे चोढधेनागम् राज्यमभिजयम् आकञ्चलम् पयसि निरपदेनागम् राज्यमभ्यजेते समानानागम् हवे राज्यमभिजेदेम् वेदृजहोदे यस्वाहाभ्यस्वाहोडेभ्यस्वाहास्वाहा रुद्रोपामेद्रायाद्रायैपैयङ्गमञ्चनम् पयशिनभवदे ततोमान भवन हवे भवते यदेन हविदायुतेन देवम् वेद स्वजहोदे रुद्राय स्वाहाय स्वाहामाणा ये स्वाहा पशुभ्य स्वाहेतिकाशीन साभ्याम् चरन्दनपदे प्रजेन श्रोत्रजहोदे अदित्ये स्वाहा पुनर्व स्वाहा भू स्वाहा प्रजाः स्वाहेते बृहस्पतिपदये दृश्यामिने वारम् जलम् पयशनिरोपयम् ब्रह्मवर्त्यस्य भवदे ब्रह्मवर्तते हवे भवते यजेतेन हविजातेन देवम् वेद स्तोत्रजहोदे हे बृहस्पतिश्यासुरा संयत्ता सन्वास्पे शेषाता देवान देविंदं सर्पेभ्यस्वाहाभ्यस्वाहाशोकेभ्यस्वाहेति पितरोमयम् च पितृलोकरुद्रियामेति तेदम् पितृभ्य मखाभ्य पुरोटाशकम् शक्तवान् ततोपेते पितृलोकार्ध्वन् पितृलोके हवारुध्नोति येतेन दे, हविधा देवम् वेद स्वी दे, पितृर्भ्यस्ताः मखाभ्यः स्वाहा नस्वाः गताभ्यः स्वाहारुभदेभ्यस्वाहेदे पशुभान् स्वामिने सर्यम्ने फल्गुणेभ्यशुवान् हवे भवते यतेन हविम् वेद स्वातृजहवदे अर्यम्ने स्वाहाणेभ्यः स्वाहा पशुभ्यस्वाहेते भगो वा अगामयत भगे श्रेष्ठे देवानागस्वामिने दे, दे फल्गुनेभ्याम् ततो भगे श्रेष्ठे देवानाम् यौजेन देवम् वेदो भगाय स्वाहा फल्गुनेभ्यागस्वाहा श्रेष्ठायस्वाहेते सविता वा अगामयता स्मेवास्मै मनुष्यादये सविता समानानाम् भवतेन हविषा योगेन देवम् वेदोदे सवित्रे हस्ताय स्वाहा स्वाहाते स्वाहा प्रेच्छते स्वाहा प्रेर्भते स्वाहेतिकामेत चित्रम् प्रजाम्यन्देति चित्रायडाचमष्टागमालन्यम् प्रजामविन्दद चित्रकम् हवे प्रजाम्यन्दते येन हविन देवम् वेदोगे स्वाहा चित्रायै स्वाहा चैत्राय स्वाहा प्रजायै स्वाहेते वायुर्वा कामयत कामचारमेषु लोके स्वभिजयेन दुग्धम्बयो निरवदेश कामचारमेषु लोके स्वभ्यजेत् कामचारकुम्भवादेषु लोके स्वभिजेदेशा योजेन देवम् वेद स्वप्रजहोदे वायवे अस्वाहाष्ट्याये स्वाहा कामदानायस्ताः अभिजत्ये स्वायति इन्द्राग्ने वा कामयेताम् श्रेष्ठम् देवानामभिजये वेदि सा वेदमिन्द्राग्निभ्याम् विशाखाभ्याम् पुराणादमेकादशमानम् जलमपदाम् वेदौ श्रेष्ठम् देवानामभ्यजेताम् ौतेन देवम् वेद सोक्तृजहोजे इन्द्राज्ञाः अभिशाखाभ्यागस्वाहायस्वाहाभिदे स्वाहेते कामो वै पौहर्णमासे कामाज्यम् कामेणैव कामकंसमध्ये क्षिप्रमेण कंसकाम उपनमदे येन कामेन युगदे सोक्तृजहोजे पौर्णभास्ये स्वाहाकामाय स्वाहागत्ये स्वाहेति मित्रो वामयतास्तन्निरवपदे ततो वेदमित्रधेयमेषु लोकेष्वभ्यजेते मित्रधेयम् भवानेषु लोकेष्वभिजेते यजेतेन मविषा यजते योजेन देवम् वेद सहोदे नियस्वाहानुराधेभ्यस्वाहा यस्वाहानामभिजये यमिते पुरोणाजमेकानुगवानमहाव्रीहीनाेष्ठन् देवानामभ्यजयम् हवेयमानानामभिजये यतेन हविधा यजते भूतेन देवम् वेद स्वात्रजहो इन्द्राय स्वाहा ज्येष्ठाये स्वाहा ज्येष्ठाय स्वाहाभिर्धे स्वाहेजे प्रजापदप्रभागामयम् प्रजाम् विन्दे ये स यतम् प्रजापदये मूलाय जलम् निरपदे ततो वेदमूलम् प्रजाविन्दया मूलकम् हवे प्रजाम् विन्दते यतेन हविता यजते योजेन देवम् वेद श्रोत्रजहोदे प्रजापदये अस्वाहास्वाहा स्वाहेति आहो वा कामयन्त समुद्रम् कामभिजयेति सा एतमभ्यस्तरम् निरवपन्ताः समुद्रम् कामभ्यजयन् समुद्रम् हरेकामभिजये अभिजायते योजेन देवम् वेद सोऽग्रजहो अभ्यस्ताः षाढाभ्यस्ताः समुद्रा यस्वाहास्वाहा विश्वे मे देवाः गामयन्त अनपदेयम् जयमे देवेभ्यो गाढाभ्यत्तरम् निरपमन् ततोनपदेयमजयन् अनपदेयगम् हवेजेतेन हविता यजने योजेन देवम् वेद सोत्रजहो ये विश्वेभ्यो देवेभ्यस्ताः साढाभ्यस्ताः नित्ये स्थामयता ब्रह्मलोकमपिजये तदेतम् ब्रह्मणे ततो वेदद्ब्रह्मलोकमपिजे ब्रह्मलोकम् हवा अभिजयते यदे हविजा विजते योजेन देवम् वेद सकृजोजे ब्रह्मणे स्वाहा स्वाहा ब्रह्मलोकायस्ताहाभिजित्ययस्ताहे विष्णुर्वामेत पुण्यग्यश्लोकम् शृन्वेय न वा पापी कीर्तिरागच्छेदिकेतम् विष्णवे शोणायी पुरोणासन्तरभवदे पुण्यग्श्लोकमशृण नैनम् पापी कीर्तिरागच्छत् पुण्यकम् हवेश्वामकम् शृणुते नैनम् पापी कीर्तिरागच्छति यकेतेन हविषागजते योजेन देवम् वेद स्वहोत्रजहोजे दे। विष्णवे स्वाहा श्वोयै स्वाहा श्लोगाय स्वाहा सुगाय स्वाहेते कामयन्दा अग्रम् देवतानाम् पर्यामेते दे। पर्यम् वसोभ्यश्चेष्टाभ्यः पुरोटा समष्टागमानपवन् ततो वेदेग्रम् दे देवं वेदा, एवम् वेद सोत्रजहो असभ्यस्ताः सविभ्यस्ताः इन्द्रमाकामयता दृढवस्यामिजेभ्य पुरोणानाम्भवमाशिशिला भवति देवं स्वाहाकपादगामयेजस्मे ब्रह्मवर्त्यते श्यामि समजा एकपदे प्रोष्टपदेभ्यश्चरन्निरमपदे अतो वैषतेजस्मे ब्रह्मवत्यस्य भवते एजस्वे हवे ब्रह्मवत्य स्वाहा प्रोष्टपदेभ्यस्वाहास्वाहा ब्रह्मवत्सदाय स्वाहे अहिर्वे बुद्धया कामयता इमाम् प्रतिष्ठाम् विन्दे ये स यतमहे बुद्धयाय प्रोष्टपदेभ्यः पुरोदासम्भूमिकपालन् निरवपदे इमाम् प्रतिष्ठापविन्ददा इमाम् भवेत् प्रतिष्ठाम् विन्दतेन हविधा विदते यमुदेन देवम् वेद सजहो ये आर्यवाहास्वाहाष्ठा ये स्वाहेति नाम यथा पुसुमान् स्वामिजेदम् निरपदे पुषुमाणभोदे दे, दे, देवं दे दे, स्वाहवत्ये स्वाहाभ्य स्वाहेति अश्विनौ वा कामयेताम् श्रोत्रस्मिन् अपजरावस्या वेते तावेतमष्टिभ्यामष्टियिभ्याम् पुराणायन्विकपानपवताम् ततो वेतौ श्वात्रस्मिनापरामपदनाम् सोऽत्रस्य हवा भवति यदि अनेन हविधागे यौतेन देवम् वेद सोऽत्र च अष्टभ्यागस्वाहायद्भ्यागस्वाहात्रा यस्वाहा स्वत्यये स्वाहेति यमो वागम् राज्यमभिजय यमिनागम् राज्यमभ्यजयते समानानाकम् हवे राज्यमभिजयते यनेन यो हविषा योगेन एवम् वेद स्वजहोगे यमायस्ताः राज्यायस्वाः स्वाहेतमावास्याय आज्यम् निर्वपदे कामो वामावास्याः कामाराज्यम् कामेणैव कामकंसमर्थ्येते येन कामेण विजते स्वाहामाय स्वाहागत्ये स्वाहे चन्द्रमावा कामयता अहोरात्रानमासान्मासामृतो संवत्सरमाप्त्वा चन्द्रमधस्वायुजगम् सदागदा महात्वियामिति चन्द्रमधेदृश्याये कुरोडा सम्पञ्च शुकरवादन्निरपपदे ततो वेशोऽहोरानर्थमासान्मासान्सम् वत्सरमा चन्द्रमदस्वायुज्यगुन्तमाप्नो होरानुवान् चन्द्रमदस्वायुज्यगुङ्क लोकदामाप्नोति देवम् वेन चन्द्रमदे स्वाहाश्चाये स्वाहा अहोरात्रेभ्यस्ताः अर्धमासेभ्यस्ताः मासेभ्यस्वाः तुभ्यस्वाः संवर्धना यस्माहे अहोरात्रे वा नामलेताम् अत्यहोरात्रे मुच्चे वे नमहोरात्रे आत्मयातामि ते एवमहोरात्राभ्याः सुरन्दिरमपदाम् अजानाम् वेहिणाम् शुक्लानाम् च कृष्णानाम् च समाद्योर्दुग्धे श्वेतायै च कृष्णायै च प्रतो अमुच्यते नैने अहोरात्रे नैनमहोरात्रे आकृतः के अभिजायते योजेन देवम् वेद स्वातृजहो अह्ने स्वाहा रात्रिये स्वाहा अभिमुक्ते स्वाहेति उषावागामेन प्रियादित्यस्य सुभगाः स्यामि ते सैनपषदे जलम् निरभवदे प्रियादित्यस्य सुभगा भवते प्रिया व्युशिष्टे स्वाहा प्युषन्ते स्वाहा प्युष्टाये स्वाहेते अथैकस्मै नक्षत्राय जलम् निर्ववते यथा एवमहम् मनुष्याणाम् भूयासमिते यथा हवा एतद्देवाना एवम् हवा एष मनुष्याणाम् भवते यदे हविना देवम् वेद स्वक्तवदे नक्षत्राय स्वाहो देखरे स्वाहा स्वाहा स्वाहा भरदे स्वाहा द्वादशे स्वाहा तेजसे स्वाहा स्वाहा ब्रह्मवर्तता शौर्योपामेन नक्षत्राणाम् प्रतिष्ठास्यामिति सौर्याय नक्षत्रेऽभ्यश्चरन्निरभवत् ततो अवेधनक्षत्राणाम् प्रतिष्ठा भवति प्रतिष्ठाः वेदमानानाम् भवतेन हविषा यूतेन देवम् वेद स्वक्रजहोदे सूर्यायस्वाहा नक्षत्रेऽभ्यस्ताः प्रतिष्ठाये स्वाहेते अधीतमदित्ये धरन्निर्णपदे यम् वा निः अस्यामेव प्रतिष्ठते स्वात्रजहोदे प्रनित्ये स्वाहाये स्वाहेते अधीतम् विष्णवे धनम् यज्ञा वे विष्णः यज्ञये वान्तः प्रतिष्ठते सोक्तजहो विष्णवे स्वाहा यज्ञाय स्वाहा प्रतिष्ठा हे ओ